सुराचार्याय विद्महे सुरश्रेष्ठाय धीमहि तन्नो गुरुः प्रचोदया अस्य श्रीबृहस्पतिकवचमहामन्त्रस्य ईश्वर ऋषिः अनुट्वछन्दः बृहस्पतिरुदेवता अम्बीजम् श्रीम् शक्तिः क्लीम् कीलकम् मम बृहस्पतिग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः तप्तकाञ्जनवर्नाभम् चतुर्भुजसमन्वितम् दण्डाक्षसूत्रहस्तम् च कमण्डलुवरान्वितम् पीताम्बरधरम् देवम् पीतगन्धानुलेपनम् पुष्परागमयाभूषम् विषित्रमुकुटोज्ज्वलम् स्वर्णाश्वरसमारूढम् पीतध्वज सुशोभितम् मेरोः प्रदक्षिणम् सम्यक् आचरन्तम् सुशोभनम् अभीष्टवरदम् देवम् सर्वज्ञम् सुरपूजितम् सर्वकामार्थसिद्ध्यर्थम् प्रणवामि गुरुम् सदा बृहस्पतिशरः पादौ ललाटम् पादु मे गुरुः कर्णोऽ सुरगुरुः पादौ नेत्रे मेऽभीष्टदायकः नासाम् पातु सुराचार्यो जिह्वाम् मे वेदपारगः मुखम् मे पातु सर्वज्ञो भुजो पातु शुभप्रदः करो मे परदः पातु वक्षो मे पातु गीष्पतिः स्तनो मे पातु वागीशः भुक्षुम् मे शुभलक्षणः नाभिम् पातुसु नीतिज्ञः मे पातु सर्वदः पूर्व मे जङ्घे मे ज्ञानदः प्रभुः पादौ मे पातु विश्वात्मा सर्वाङ्गम् सर्वदा गुरुः यैदम् कवचम् दिव्यं। ऋसन्ध्यम् प्रपठेन्नरः सर्वान् कामान् अवाप्नोति सर्वत्र विजयीभवेत् सर्वत्र पूज्यो भवति वा प्रसादतः